श्रीमद्भागवत् महापुराणम् एकादशी स्कन्ध अथ की वृत्त्यो का निरूपं श्रीभगवानुवाच गुणानां सुमिश्राणां पुमान्येनायसाभवेत यथा उपधारेसंसतः समूदमस्ति तिक्षेच्छा तपः सत्यम् दया स्मृतिः तुष्टिस्त्यागोस्विहा श्रद्धा श्रीर्दयादी सुनिवृतिः कामैहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् भादुत्साहूयिञ्जश प्रीतिर्हास्यं वीर्यम् बलोद्यमः क्रोधो लोभो नृतम् याञ्चादम्भक्लमकलिः शोकमोहो विषादार्ति निद्रासाभिरनुद्यमः सत्त्वस्यैतां तमसन्तमसस्यान्पूर्वशः वृत्त्यो वर्णितप्रायाः सन्निपातमथोष्णु सन्निपात सुहमिति सन्निपात ममेत्युद्धो या व्यवहार सन्नतो मनोमातेशु धर्मे चा चौपरी गुणा सन्नीकर्षो सीध न वह प्रवृत्ति लक्षणे निष्ठा पुमा गृहाश्रे सधर्मे चाषेत गुणा स्मृतिर् पुरुषम् सत्त्वसंयुक्तम् अनुमीयात् समादिभिः कामादिभिरजोयुक्तम् क्रोधाद्दे स्तमशायितम् यदा भजति माम् भक्त्या निरपेक्ष स्वकर्मभिः तं सत्त्वप्रकृतिम् विद्यात् पुरुषं श्रियमेव वा यदा आशीष आशास्य माम् भजे स्वकर्मभिः तं रञ्ज प्रकृतिम् विद्याम् ध्वंसामासासितामसम् सत्त्वम् रजस्तमिति गुणा जीवस्य नैव मे चित्तजायस्तु भूतानाम् सज्जमानो निबध्यते यदेतरौ जये सत्त्वम् भास्वरम् विशुतम् शिवम् तदा सुखेन युज्येत धर्मज्ञानादिभिः यदा जयेतमः सत्त्वं रज सर्गं सङ्गम्भिदाचलं तदा दुःखेन युज्येत कर्मणा यशसा श्रियाम् यदा जयेत रजसत्त्वं तमोमूढं लयं जडम् युज्येत शोकमोहाभ्यां निद्रया संशयाशयाम् यदा चित्तम् प्रसीदेतन् इन्द्रियाणां च निवृत्तिः देहे भयम् मनोसङ्गम् तत्सत्त्वम् वृद्धिमत्पदम् विकुर्वन् क्रियाचाधि चाधि अन्यवृत्ते चेतसाम् गात्रा स्वास्थ्यम् मनोभ्रान्तम् रज एतै निशामय सीदच्चित्तम् विलीयेत चेतसो ग्रहणोक्षमम् मनो नष्टम् तमोग्लानि एधमाने गुणे सत्वे देवानां वलमेधते असुरानां च रजसी तमस्त्योद्धव रक्षसाम् सत्त्वाज्जागरणं विद्याद्रसा स्वप्नमादिशेत् प्रवस्वापं तमसाजन्तु सुरियं ते सुसन्ततम् उपर्योपरि गच्छन्ति सत्त्वेन ब्राह्मणा तमसाधोऽधम् आमुख्यादशन्तर्चारिणः सत्वे प्रलीना स्वर् यान्ति दल्लोकम् रजोलयाः तमोलयास्तु निरयम् यान्ति मामेव निर्गुणाः मदर्पणम् निष्फलम् वासात्विकं सात्विकम् निज कर्म तन् राजसम् फलसङ्कल्पम् कैवल्यम् सात्विकम् ज्ञानम् रजो वैकल्पिकम् चयन् प्राकृतम् तामसं ज्ञानम् मन्निष्ठम् निर्गुणम् स्मृतम् वनम् तु सात्विको वासो ग्रामो राजसोच्यते तामसं द्यूतसदनम् मन्निकेतम् तु निर्गुणम् सात्विककारणो का सङ्गी रागान्धो राजसस्मृतः तामसस्मृतिर्विभ्रष्टो निर्गुणो मदपाश्रयः सात्विक्याध्यात्मिकी श्रद्धा कर्म श्रद्धा तु राजसे तामस्य धर्मे या श्रद्धा मत्सेवायान्ति निर्गुणा पथ्यम् पूतमनायन्तमाहार्यम् सात्विकम् सतम् राजसम् चेन्द्रियप्रेष्ठम् तामसम् चार्चिदाशुचे सात्त्विकम् सुखमात्मोत्थं विषयोत्थं तु राजसं तामसम् मोहदैन्योत्थं निर्गुणम् मदपाश्रयम् द्रव्यम् देशः फलम् कालो ज्ञानम् कर्म चकारकः श्रद्धावस्था कृतिनिष्ठा त्रैगुण्य सर्व एव हि सर्वे गुणमया भावा पुरसाव्यक्तधिष्ठिताः दृष्टं सुतमनुध्यात्मं बुद्ध्या वा पुरुषर्षव एता संस्कृतयसो गुणकर्मानिबन्धनाः येनेमे गुणाजीवेन चित्तजा भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते तस्माद्देहमिमं लब्ध्वा गुणसङ्गम्बनिर्धूय माम् भजन्तु विचक्षणाः निषङ्गो माम् भजेद्विद्वान् अप्रमत्तो जितेन्द्रियः रजस्तमश्चाभिजयेत् सत्त्वसंसेवया मुनिः सत्त्वम् चाभिजयेद्युक्तो नैरपेक्षेण शान्तरे सम्पद्यते गुणैर्मुक्तो जीवो जीवम् विहाय माम् जीवो जीवाभि निर्मुक्तो गुणैश्चाशे शम्भवै महिमयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् इति श्रीमद्भागवते महापुराणे आरहिंसां सहितायाम् एकादश स्कन्धे